ब्रह्माण्डपुराणं मध्यभागं अध्यायं 37 सवन् भार्गवचरितं वसिष्ठ उवाच दृष्ट्वा परसुरामस्तु तदाश्चर्यं महाद्भुतं जगाद सर्ववृत्तान्तं मृगयोस्तु यथाश्रुतम् तत् भगवान् भगवान् साक्षादगस्त्यकुम्भसम्भवः मोदमान उवाचेदं भार्गवं पुरतस्थितम् अगस्त्य उवाच शृणुराममहाभागकार्याकार्यविशारदा इदं वदामि यत्तेद्य तत्कुरुष्वसमाहितः इतो विदूरे सुमहस्थानं विष्णोः सुदुर्लभं पदानि यत्र दृश्यन्तेऽन्यस्तानि सुमहात्मना यत्र गङ्गासमुद्भूता वामस्य महात्मनः पदाग्रात्क्रमदो लोकांस्तद्बलेस्तु विनिग्रहे तत्रगत्वास्तवं गत्वास्तवं चेदं मा समैकमनन्यधीः पठस्व नियमे नैव नियतो नियताशनः यत्त्वया कवचं पूर्वमभ्यस्तं सिद्धिमिच्छता शत्रूणां निग्रहार्थाय तच्चते ते भवेत् वसिष्ठ उवाच एवमुक्तो ह्यगस्त्येन रामः शत्रुनिबर्हणः नमस्कृत्य मुनीं शान्तं निर्जगामाश्रमाद्बहिः पुनस्तेनैव मार्गेण सम्प्राप्तस्तत्र सत्वरं यत्रोत्तरात्पदन्यासा निर्गता स्वर्णदीनृप तत्र वासं प्रकल्प्यासा स वकृतव्रणसंयुतः समभ्यस्यस्तवं दिव्यम् कृष्मप्रेमामृताभितम् नित्यं व्रजपतेस्तस्य स्तोत्रं तुष्टो भवद्धरिः जगामदर्शनं तस्य जामदग्न्यस्य भूपदे चतुर्व्यूहाधिपः साक्षात्कृष्णकमलोचनः किरीडं नार्कवर्णेन कुण्डलाभ्यां च राजितः कौस्तुभोद्भासितो रस्कः पीदवासा धनप्रभः मुरलीवादनपरसाक्षान्मोहनरूपदृक् तं दृष्ट्वा सहसोद्धाय जामदग्न्यो मुदान्विदः प्रणम्य दण्डवद्भूमौ तुष्ठावप्रयदो विभुम् परशुरामुवाच नमो नमः विग्रहाय प्रपन्नपालाय सुरार्थिहारिणे ब्रह्मेश विष्णुविद्रमुखस्तुताय नतोऽस्मि नित्यं परमेश्वराय यं वेदवादैर्विविधप्रकारैर्निर्नेदुमीशानमुखान् शक्नुयुः तं त्वामनिर्देश्यमचं पुरामनन्दमीडे भव मे दया परः यस्त्वेक ईशो निज वाञ्चितप्रभो धत्ते तनोर्लोकविहाररक्षणे नानाविधा देवमनुष्यतिर्यज्ञाधस्सु भूमेर्भरवारणाय तन्त्वामकं भक्तजनानुरक्तं विरक्तमत्यन्तमभीन्दिरादिषु स्वयं समक्षं व्यभिचारदुष्ट चित्तास्वभिप्रेम निबद्धमानसं यं वै प्रसन्ना असुरासुरा नरात्स किं नरास्तिर्यके यो गतास्वरूपं निकलं विहाय ते देहस्त्र्यपत्यार्थममत्वमीश्वर तं देवदेवं भजतमपीप्सिदप्रदं निरीक्षं गुणवर्जितं च अचिन्त्यमव्यक्तमकौखनाशनं प्राप्तोरणं प्रेम निधानमादराद तपन्ता पैर्विधस्वदेहमे येविधर स्वनेमलौक विभो पश्यब्धवासना ये वै त्वदीयं चरणं भव श्रमान् निर्विण्णचित्ता विधिवस्मरन्ति नमन्ति भक््याद समर्चयन्ति वै परस्परं संसदि वर्णयन्ति तेनैकजन्मोद्भवपङ्कभेदनप्रसक्तचित्ता भवतोऽङ्घ्रिपद्मे तरन्ति चान्यानपि तारयन्ति हि भवौषधं नाम सुधात्तवेश अहं प्रभो पामनिबद्धचित्तो भवन्तमार्यं विविधप्रयत्नैः आराधयं नाथ भवान भवानभिज्ञ विज्ञाप्य विज्ञाप्यमिहास्ति लोके वसिष्ठ उवाच इत्येवं जामदग्न्यं तु स्तुवन्तं प्रणतं पुरः उवाच गाधया वाचा मोहयन्निव कृष्ण उवाच हन्धराम महाभागसिद्धं ते कार्यमुत्तमं कवचस्यस्तवस्याभिप्रभावादवधारय हत्वा तं कार्तवीर्यं हि राजानं तृप्तमानसं साधयित्वापि दुर्वैर्यं कुरु निःक्षत्रियां महीम् मम चक्रवी काो धरातश्रेष्ठ तम सनद अद्य प्रभति लोकेश्य मे भा चल्य कर्ता हर्ता स्वयं प्रभुः चतुर्विशे युगेवचत्र रघुवंशजः रामो नाम भविष्यामि चतुर्व्यूहः सनातनः कौसल्यानन्दजनको राज्ञो दशरथादहम् तदा कौशिक महाभाग कौशिकय्वा सलक्ष्म ग महाभागजनक निर्भज्य पणीय विदेजा तदा या नोध्याश्ये तेज उन्मदम वसिष्ठ उवाच कृष्ण एवं समदिश्य जामदग्न्यं तपोनिधिं पश्यतोऽन्तर्दधे तत्र रामस्य मुमहात्मनः यदि श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे भार्गवचरिते सप्तत्रिंशत्तमोऽध्यायः ओम्